मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फार्टि त्रि दम्भासुरदूतसंवादम् श्रीगणेशाय नमः मुद्गल उवाच देवेन्द्राणां वजक्रूरं श्रुत्वा चिन्तातुरोऽभवत चतुर्मुखो विचारं स चकारात्र दुःशोभनम् नावापदेवरक्षार्थम् बुद्धिं बुद्धिविशारदः ततश्चिन्तां दुरन्तां वै जगाम कमलासनः जगादेवमुख्यांस्तु भयेन कमलासनः अहं यूयं च सर्वेपि प्रार्थयामो जाननं स वै सर्वविचारज्ञ करिष्यति शुभं महत अतस्तध्यानकौशल्याध्यायेम च विनायकम् एकाक्षरविधानेन वक्रतुण्डं यजामहे शरणं सर्वदेवानां भविष्यदि मुग्गल उवाच ब्रह्मणो गिरमाकर्ण्य देवा मुनिगणैः सह पूजया मासुरव्यग्राक्रतुण्डम् विधानदः ब्रह्मापि ध्यानसंयुक्तस्तोषयामास विघ्नपम् पुरा दृष्टम् तथा चित्ते सिद्धिबुद्धियुतं मुने गतेषु शतवर्षेषु ब्रह्मा पश्यच्च तं हृदि साकारं गुणसंयुक्तं वदन्तं मञ्चूला गिरः दृष्ट्वा विस्मिदचित्तोऽसौ यावत्पृच्छदि तं प्रभुम् वत्सि बहिर्याद सिद्धिबुद्धिम ब्रमाण बोधयामास वक्र तो महाबल सुप्रसन्नतरो जातस्तसाध्यानशा वक्र तो उवाच पश्यम पुत्रभावेन भेन पितामगणाधिप तव समुत्पन्नं ध्यानजं प्रवदन्त्यतः तपसा पूर्वकाले मां त्वया पुत्रत्वमादराद याचितं सफलं तच्च कृतं तव मयाधुना वचनं वक्रतुण्डस्य श्रुत्वा ब्रह्मा मुदायुधः बहिर्वीक्ष्य गणेशानम् सिद्धि बुद्धिविराजितम् प्रणनामससाष्टाङ्गवक्रतुण्डं गजाननं सिद्धिं बुद्धिं विधानेन पूजयामास यत्नदः तद्दृष्ट्वा परमाश्चर्यं देवाः सर्वे समागताः ऋषयष्टमहाभागाः प्रणेमुर्भक्तिभावदः सुतं मानसिकं दृष्ट्वा सिद्धिं बुद्धिं तथात्मजे ताभ्यां विनीतास्ते तुष्टुवुर्बद्धपाणयः ब्रह्मापि पूजनं कृत्वा स्तोतुं सर्वैः समन्वितः उद्यतो भून्महातेजा वक्रतुण्डं स्वभार्यकं सदेवर्षिब्रह्मोवाच नमस्ते ब्रह्मभूताय वक्रतुण्डाय साक्षिणे सिद्धिबुद्धियुतायैव गणेशाय नमो नमः विघ्नेशाय नमस्तुभ्यं। निर्गुणाय गुणात्मने अनादये च सर्वज्ञपालकाय नमोऽस्तु ते नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमदे आदिमध्यान्तहीनाय साक्षाद्देवाय ते दे नमः अमेयशक्तये तुभ्यम् मायिभ्यो मोहदाय च अमायिने आधाराय नमो नमः सत्याय सत्यरूपाय सत्यपालकरक्षिणे ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः लम्बोदराय देवाय गणानां पदये नमः गणेशाय गुणाधार हेरम्बाय नमो नमः त्वां स्तोदुं न समर्थाश्च वेदाशास्त्रसमन्विताः योगीन्द्रादेवमुख्याश्च तत्र कोऽहं गजानन यथा बुद्धिप्रमोदेन संस्तुतोऽसि गणेश्वर तेन मे सफलं सर्वम् जातं लम्बोदराधुना ब्रह्माण्डानामनन्दानां कारकस्त्वं न संशयः कथं मे पुत्रतां यादसिद्धिबुद्धिसमन्वितः सिद्धिबुद्धियुदं ब्रह्मकृदिभ्यादं विशेषदः तदेव बहिरायादं तारिदुं मां न संशयः इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियां चकारतस्वयं ब्रह्मा परमानन्दसंयुधः एकादशदिने तस्य सिद्धिबुद्धिपदिस्त्ति नाम संस्थापयामास द्विजैः सह पितामहः बालक्रीडनभावेन क्रीडति स्म विनायकः सावित्रीस्तनपानं सा कारयामास दिने दिनेध बालोऽसौ ववृधे शुक्लचन्द्रवद आनन्दं जनयन्मादुः पितुश्च चरितैः स्वकैः सिद्धि बुद्धियुतो दक्ष वर्षद्वयवयास्थितः यकदातं विधातारं पप्र विनयान्वितः सिद्धिबुद्धिपदिरुवाच तात किं वनवासं त्वं करोषि मुनिभिस्सह देवै परमदुःखार्तो मम किं भासे प्रभो तस्य तद्वचनं श्रुत्वा ब्रह्माकर्षसमन्वितः जगादगणपं सर्वं वृत्तान्तं दैत्यसम्भवम् तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुण्डस्तमब्रवीद हर्षयन् देवविप्रादीन्मेकगम्भीरनिःस्वनः वक्रतुण्ड उवाच दम्भासुरं महावीर्यं हनिष्यामि न संशयः देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहं यवमुक्त्वा समाजूढसिंहं शस्त्रधरः प्रभुः सिद्धिबुद्धियुधस्तत्र जगामासुरवेश्मनि नगरप्रान्तभागे स संस्थितो जगदीश्वरः तं देवमुनयत्सर्वे ययोर्हर्षसमन्विताः दोदमिन्द्रं गणेशश्च प्रेशयामास सत्वरः स्वधर्मे तिष्ठदैत्येन्द्र नो चेद्ध न संशयः इन्द्रो गत्वा महादैत्यं सामपूर्वमिदं वचः उवाच सर्वभावज्ञो भावपूर्वं सुरद्विषम् इन्द्र उवाच ब्रह्मणः पुत्रदां व्यादं पूर्णं ब्रह्मसनातनं सिद्धिबुद्धिपतिं विद्धि मानसं ध्यानयोगदः स एव मुनिभिर्देवैरागदः पुरसन्निधौ मां दूदम् प्रशयामास सामार्थं तव स्वधर्मे त्वं समातिष्ठदेवाः सन्तु हविर्भुजः वर्णाश्रमयुधा लोकास्तिष्ठन्तु विगतज्वराः इन्द्रस्य वचनं श्रुत्वा कुपितोदितरां मुने दम्भासुर उवाचाथ तमिन्द्रं प्रदहन्निव दम्भासुर उवाच किंको सामयादो दूध मे गृह नोचे तां बंधयि करागारेक्षिम्यहम इंद्रग्छ महाभागव गणनायक पंचमें दिवसेवां चोधया योधया संशय तद इन्द्रः समायादसिद्धिबुद्धिपदिं प्रति कथयामासवृत्तान्तं विस्तरेण यथा यत्थं श्रुत्वा गणपतिप्रीतस्तमुवाच महामतिं समीचीनं त्वया तत्र कृतं देवपदे यथा ओम पुराणोप तत्सिश्री मन मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरि दंभासुरदूत संवाद नामच्वांशोध्याय